एकादशाधिकशततमोऽध्यायः वैशम्पायन उवाच सत्त्वरूपगुणोपेता धर्मा रामा महाव्रता दुहिता कुन्तिभोजस्य पृथा पृथिरलोचना ताम् तु तेजस्विनीम् कन्याम् रूपयौवनशालिनीम् व्यवृण्वन्पार्थिवाः केचिद् ततः सा कुन्तिभोजेन राज्ञा हूयनराधिपान् पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ततः सारङ्गमध्यस्थम् तेषाम् मनस्विनी ददर्श राजशार्दूलम् पाण्डुम्भरतसत्तमम् सिंहदर्पम् महोरस्कम् वृषभाक्षम् महाबलम् आदित्यमिव सर्वेषाम् राज्ञाम् प्रच्छाद्य प्रभाः तिष्ठन्तम् राजसमितौ पुरन्दरमिवापरम् तम् दृष्ट्वा सानवत्याङ्गी कुन्तिभोजसुधाशुभा पाण्डुम् नरवरं रङ्गे हृदयेनाकुलाभवत् ततः कामपरीताङ्गी सकृत्प्रचलमानसा व्रीडमानास्त्रजम् कुन्ती राज्ञम् स्कन्धे समासजत् तम् निशम्यवृतम् पाण्डुम् कुन्त्या सर्वे न राधिपाः यथागतम् समाजग्मुर्गजैरश्वैरथैस्तथा ततस्तस्याः पिता राजन् विवाहमकरोत्प्रभुः स तया कुन्तिभोजस्य दुहित्रा कुरु नन्दनः युजेमितसौभाग्यः पौलोम्यामघवानिव कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः कृत्वोद्वाहम् तदा तम् तु नानावसुभिरर्चितम् स्वपुरम् प्रेषयामास स राजा कुरु ततो बलेन महता नानाध्वजपताकिना स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः सम्प्राप्य नगरम् राजा पाण्डुः कौरवनन्दनः निवेशयत्ताम् भार्याम् कुन्तीम् स्वभवने प्रभुः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कुन्तीविवाहे एकादशाधिकशतमोऽध्यायः